राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च यथा च युद्धमभवत् पृथिवीक्षयकारकं तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभा मृते पितरिते वीरा वनादेत्यस्वमन्दिरम् न चिरादेवविद्वांसो वेदे धनुषि चाभवन् तांस्तथा सत्त्ववीर्यौजः सम्पन्नान् पौरसम्मतान् नामृष्यन्कुरवो दृष्ट्वा पाण्डवान् श्रियशोभृतः ततो दुर्योधनः क्रूरः कर्णश्च सहसौ बलः तेषां निग्रहनिर्वासान् विविधांस्ते समारभन् ततो दुर्योधनशूरः कुलिङ्गस्य मते स्थितः पाण्डवान् विविधोपायैः राज्यहेतोरपीडयत् ददावथ विषं पापो भीमाय धृतराष्ट्रजः जरयामास तद्वीरः सहान्येन वृकोदरः तो येषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् यदा विबुद्धः कौन्तेयः तदा सञ्चिद्यबन्धनम् उदतिष्ठन्महाबाहुः भीमसेनो गतव्यथः आशीर्विषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुः तेषां तु विप्रकारेषु तेषु तेषु मोक्षणे प्रतिकारे च विदुरोवहितोऽभवत् स्वर्गस्थो जीवलोकस्य यथाशक्रः पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः यदा तु विविधोपायैः संवृतैर्विवृतैरपि नाशकद्विनिहन्तुं तान् दैवभाव्यर्थरक्षितान् ततः सम्मन्त्र्यसचिवैः वृषदुःशासनादिभिः धृतराष्ट्रमनुज्ञाप्य जातुषङ्गृहमादिशत् सुतप्रियै राजा पाण्डवानम्बिका तो ततो विवासयामास राज्यभोगबुभुक्षया ते प्रातिष्ठन्तसहिता नगरान्नागसाह्वयात् प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनां तेन मुक्ता जतुगृहान्निशीथे ते प्राद्रवन्वनम् ततः सम्प्राप्य कौन्तेय नगरं वारणावतं न्यवसन्त महात्मानो मात्रा सह परन्तपाः धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः त्वातु विदुरेण प्रचोदिताः आदिप्यजातु शं वेश्म दग्ध्वा चैव पुरोचनं प्राद्रवन्भयसंविघ्ना मात्रा सह परन्तपाः ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे हत्वा च तं राक्षसेन्द्रं भीता समवबोधनात् निशिसम्प्राद्रवन्पार्थ धार्तराष्ट्रभयार्दिताः प्राप्ता हिडिम्बाभीमेन यत्र जातो घटोत्कचः एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः वेदाध्ययनसम्पन्नाः ते भवन्